गर्गसंहिता खण्डं सवन् विश्वजित् खण्डम् अध्यायं फोर्टि वन् श्रीनारद उवाच दैत्यानशेषान् समनीयनानायुद्धनरो बली उच्चैश्रवसमूहाय अयं दिव्यमनोहरम् धनुष्टङ्कारयन्वीरशकुनिक् क्रोधमूर्च्छिदः आययौ सम्मुखे योद्धुम् श्रीकृष्णस्यापि सम्मुखे पुनः दैत्यसैन्यं शकुनिं युद्धदुर्मदं तं वीक्ष्य कृष्णयः सर्वे जगृहस्वायुधानि च दैत्यानां यदुभिः सार्धं युद्धम् बभूवः वीरैः सं युयुधुर्वीरः सिंहासिंहैरिवाहवे सर्वेषामग्रदप्राप्तकोदण्डम् नादयन्मुहुः शकुनिर्मेकवद्राजन् चक्रे नारा च दुर्दिनम् बाणान्धकारे भगवान् गरुडध्वजः शार्ङ्गी शार्ङ्गेण धनुषा यथेन्द्रेण खनो बभौ श्रीकृष्णो भगवान् साक्षात् च कुनेरसुरस्य चिच्छेदबाणपडलं बाणेनैकेन ना लीलया आकृष्य कर्णपर्यन्तम् कोदण्डं शकुनिर्मृधे तदाढदशभिर्बाणै श्रीकृष्णहृदिमैथिलप्रलयाब्धिमहावर्तभीमसङ्घर्षणादिनीं धनुर्जां शकुनैः शौर्यश्चिच्छेददशभिशरैः मायावीशकुनिर्दैत्यश्च शतरूपी बभूवः युयोधहरिणा युद्धे सर्वेषां पश्यतां नृप सहस्रानि स्वरूपाणि धृत्वा साक्षाद्धरि स्वयं युयूधे तेन दैत्येन तदद्भुतनिवाभवद मय दैत्येन रजिदं त्रिशूलं ज्वलनप्रभं भ्रामयित्वाध हरये प्राणिः प्राहिणो दैत्यराड् बली तदक्रुद्धो महाबाहुपरिपूर्णतमोहरिः चिच्छेदतं तीक्ष्णतुण्डं पन्नगं गरुडो यथा तदक्रुद्धो महाबाहुर्गतां चिक्षेपमूर्धनि हयात्तं पादयामासगदया वज्रकल्पया गदाप्रहारव्यधिदः क्षणं मूर्च्छां गदोऽसुरः गृहीत्वा स्वां गदां युद्धे युयुधे माधवेन वै तयोर्युद्धमभूत्घोरं गदाभ्यां रणमण्डले अभुच्चडचडारावो वज्र निष्पेषवत् किल श्रीकृष्णगदया तस्य चूर्णीभूता गदा भुवि वीरे जेङ्गारवत्तत्र सर्वेषां पश्यता मृधे गिरिदर्यां यथा सिंहौ वनौ वने गिरिदर्यां यथा सिंहौ वने मत्तौ गजाुभौ रणमध्ये तथा तौ द्वौ युयुधादे परस्परं श्रीकृष्णं नोदयामास शकुनिशदयोजनम् हरितं प्रेषयामास सहस्रयो जनं भुवि गृहीत्वा भुजयोस्तं वै जङ्घाभ्यां भुवनेश्वरः पादयामास भूभृष्टे कमण्डलुमिवार्भकः किञ्चित् व्यथाम् गतो दैत्यो गृहीत्वा जारुधिम् गिरिम् प्राहिणा च दुराचारशकुनिर्युद्धदुर्मदः समागतम् गिरिं वीक्ष्य कमलेक्षणः जयशब्दम् प्रकुवं दावन्योन्यं ताडयन् गिरिं चूर्णयामसदुराजंस्तथा चन्द्रावतीं पुरीं तदा दैत्योदिसंक्रुद्धो गृहीत्वा खड्गचर्मणि आययौ सम्मुके राजन् श्रीकृष्णस्य महात्मनः शार्ङ्गी शार्ङ्गं सङ्गृहीत्वा धार्धचन्द्रमुखं शरम् सन्दधे सहसा युद्धे ग्रीष्म मार्तण्डसन्निभं शार्ङ्गमुक्तो दिव्यबाणो दिशां शकुनिर्मस्तकं चित्वा भूमिं भित्त्वा तलं गतः व्यसुर्भूत्वा तदा दैत्यपदिदोरणमण्डले भूमिस्पर्शात् सजीवो भूत्क्षणमात्रेण मैथिल करेणादायमुण्डं स्वं स्वकबन्धे निधाय युद्धं कर्तुं समुत्थौ तदद्भुतमिवा भवद इत्थं कृष्णेन निहतसप्तवारं महासुरः भूमिस्पर्शात् स जीवो भू द्राहुवत् पुनरुद्धितः एकागी यादवकुलं संहारं कर्तुमुद्यतः विवेशाशुमहादैत्योवने वह्निरिव प्रभुः सदुरङ्गान् महावीरान् सशस्त्रानुत्कडान् गजान् सङ्गृहीत्वा भुजाभ्यां खं प्राक्षिपल्लक्षयो जनम् कांश्चिद् मुखे धृत्वा स्कन्दयोरुभयोरपि कक्षयोरुभयोर्दैत्यो बभौ कालाग्निरुद्रवद पद्भ्यां कराभ्यां दैत्यस्य यादे महामृधे हा हाकारो महानासीत् श्रीकृष्णस्य महात्मनः तदैव भगवान् साक्षात् श्रीकृष्णो विश्वरक्षकः सुदर्शनास्त्रं प्रायुङ्कृधूनां रक्षणाय वैध समुक्तम् निशितम् सुदर्शनम् लयार्कको विद्युतिमज्ज्वलत्प्रभम् जहारसद्य शकुनेर्दृढम् शिरो यथाजवृत्रस्य पविर्महामृधे तावद्गृहीत्वा शकुनिम् महामृधे चिक्षेप सद्यो मृदमम्बरे बलात् उत्क्षेपणं भो कुरु तेषुभिर्दिवि यदुन्गिरा श्रीपदित्युवाच श्रीनारद उवाच युद्धं हरेर्वच श्रुत्वा सर्वे यादवपुङ्गवाः अम्बरात् प्रपतन्तं ते ते दैत्यो दीप्तिमदो बाणैरम्बरे शदयोजनम् गदकद्रुकवद्राजनूर्ध्वं लोकस्य पश्यतः साम्बस्यापि स बाणेन सहस्रं यो जने गदः पुनस्तमापदन्तम् काञ्चखानषुणार्जुनः तेन बाणेन दैत्येन्द्रो योजनं चायुधं गदः अनिरुद्धस्य बाणेन लक्षयोजनमास्थितः प्रद्युम्नस्यापि बाणेन नियुतं योजनं गतः पुनस्तमापतन्तं खाद्वीक्ष्य योगेश्वरेश्वरः बाणं समादधे तेन गध कोडियो के कोडियोजनं एवं के संस्थिते दैत्ये व्यदीते प्रहरद्वये द्वितीयेनापि बाणेन तं जखान हरिस्वयं सभाणस्तं भ्रामयित्वा दिक्षु वैकोडियोजनं समुद्रे पादयामासवादपद्ममिव प्रभुः एवं मृदे तदा दैत्य तज्योतिर्निर्गतं स्फुरद सर्वतो भ्रमद्राजन् श्रीकृष्णे लीनतां गतम् तदा जय जय रावो दिवि भूमावववर्तत विद्याधर्यश्च गन्धर्व्यो ननृदुःखे सुखान्विताः जगुः किन्नरगन्धर्वास्तुष्टुवुत्सिद्धचारणाः ऋषयो मुनयः सर्वे प्रशंसुहरिं परं रुद्रं रुद्रन्दसूर्याद्या सर्वे तत्र समागताः श्रीकृष्णस्योपरिसुरापुष्पवर्षम् प्रचक्रिरे इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शकुनिदैत्यवधो नामैकचत्वारिंशोऽध्यायः ओम् अध्यायं 42 टु श्रीनारद उवाच पलायितेषु शेषु दैत्येषु रणमण्डलाद वीणावेणुमृदङ्गादीन्नादयन् दुन्दुभीन्हरिः दीयमानो यादवेन्द्रः सुदमागधवन्दिभिः स्वपुत्रैर् यादवै सार्धं स्वसैन्यपरिवारितः शङ्खचक्रगदपद्म चार्ङ्गचापविराजितः प्रविवेश्य सुरैः सार्धं पुरीं चान्द्रा पु, चन्द्रावतीं प्रभुः दुःखार्था भर्तरि मृदे रुदन्ती करुणं बहु अङ्गे गृहीत्वा शघुने सुतं राज्ञी मदालसा श्रीकृष्णचरणे निधाया निधायाशुकृताञ्जलिः अश्रुपूर्णमुखि दीनाहरिं नत्वा जगादः मदालसोवाच भारावताराय भुवि प्रभो त्वं जादो यदूनां कुल आदिदेव ग्रशिष्य सेयानि भवं निधाय गुणैर्न लिप्तोऽसि नमामि तुभ्यम् मदात्मजं पालय भीदभिदममुष्य हस्तं कुरु शीर्ष्णिदेव भर्त्रा कृतं पराधं क्षमस्व देवेश जगन्निवास श्रीनारद उवाच युत्युक्तो भगवांस्तस्य मूर्ध्नि कृत्वा करद्वयं सर्वं चन्द्रावधिराज्यं ददौ तस्मै महामुनिः दत्वा कल्पान्तमायुष्यं भक्तिज्ञानं विरक्तिमद शकुने शिशवे कृष्णस्वमालां प्रददौ शुभाम् उच्चैः कामधेनु कामधेनुसुरद्रुमः आहृताय शकुनिना पुरायुद्धे पुरन्दराद पुरन्दराय तान् प्रादात् प्रयत्नाच्छ्रीजनार्दनः गोविप्रसुरसाधूनां छन्दसां पालकस्वयम् बहुलाश्व उवाच केमी दैत्या पूर्वकाले शकुन्याद्यामः बलाः देवर्षे मे परं चित्रम् कस्मान् मोक्षमुपागदाः श्रीनारद उवाच ब्रह्मकल्पे पुराराजन् गन्धर्वेशपुरा वसुः आसीतस्य शुभपुत्रा बभूवुर्नुव चौरसाः कन्दर्पसमलावण्यादिव्यभूषणभूषिताः नित्यं जगुर्ब्रह्मलोके गीतवाद्यविशारदाः मंदारो मन्दरो मन्दो मन्दहासो महाबलः सुदेवः सुधनुः सौध श्रीभानुरिदिविश्रुधा यकदा मोहदपुत्रीं वाग्देवीं वीक्ष्य वेध सहा जु सुष्ठे सन्तापनो वृकः कालनाभो महानाभो हरिष्मश्रुस्तधोत्कचः एकदा गृहमायान्तमपान्तरतमं मुनिं नत्वा सम्पूज्य विधिवत् पप्रचुरिदमादराद दैत्या ऊचुः शृणुत्वं कैवल्येशो कैवल्ये हरिस्वयम् ददातिमोक्षम् भगवान् भक्तानाम् भक्तवत्सलः अस्माभिर्नकृदा भक्तिरासुरीम् योनिमास्ति तैः दुःसङ्गनिरतैर्दुष्टैः कथमोक्षो भवेदिह उपायं वदनो ब्रह्मन् कल्याणस्य परस्य च कल्याणार्थम् विचरसि दीनानाम् जगदि प्रभो अपान्तरतमा उवाच गुणाना ये भजन्ति हरिम् परम् एते प्रापुः परम् दैत्यानिर्गुणम् मोक्षनायकम् ऐक्यम् च सौहृदम् स्नेहम् भयम् क्रोधम् स्मयम् तद्धा विधाय पूर्वम् सततं श्रीकृष्णे लीनतां गदाः पृष्णिगर्भस्य संबंधात् प्रजानाम् पतयो प्रजाना यथा कायाधवः सौहृदाच्च स्नेहाच्च सुतपामुनिः भयाद्भिरण्यकशिभुक्रोधाध्वश्च पितासुरः स्मयाश्च श्रुतयप्रागुर्योगिनां दुर्लभं परं येन केनापि भावेन श्रीकृष्णे धारयेन्मनः भक्तियोगेन तद्धाम यदेभिः प्राप्य श्रीनारद उवाच इत्युक्त्वान्तर्हिदे राजन्नपान्तरतमे मुनौ चक्रुर्वैरं शगुन्याध्यापरिपूर्णतमे हरौ ते प्राकुर्वैरभावे न श्रीकृष्णं परमेश्वरं न चित्रं विद्धिराजेन्द्रकीडपेशस्कृतं यथा इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्री श्रीनारदबहुलाश्वसंवादे शकुन्यादिदैत्यानाम् पूर्वजन्मपरिचयो नाम द्विचत्वारिंशोऽध्यायः ओम् अध्यायम् 43. श्री श्रीनारद उवाच युद्धम् खण्डम् तु भद्राश्चम् जित्वा श्रीयादवेश्वरः यदुभिः सैनिकैः सार्धमिलावृदमधायौ विभाधि यत्रैव गिरीन्द्रराजो भूपद्मगोलस्य सुरालयो मैथिलरत्नसानुः तं सर्वतो मन्दरमेरु सुन्दरौ सुपार्श्व एवम् कुमुदश्च दुर्धकः विभाधिसैको गिरिभिर्नगेश्वरश्च दुष्पदार्थैश्च मनोरथा इव जाम्बूनदम् जम्बुभवम् हि यत्र यतस्वतःसिद्धिभवम् सुवर्णम् यत्र रुणो जजादा यद्वारिपानद्भुविनामयित्वम् कदम्बजा मधुधाराश्च पञ्च यासाम् तुपानेन नृणाम् कदापि शीतोष्णवैवर्ण्य परिश्रमाद्या दौर्गन्ध्यभावान दौर्गंध्यभावान राजन् यदुद्भवा कामदुःखानश्च रत्नान्नवासशुभूषणानि शयासनादीनि फलानि यानि दिव्यानि तानि त्वद यत्रोर्ध्ववनं प्रसिद्धं सङ्कर्षणो यत्र विराजदेथ शिव सदा सौरमदे प्रियाभिः श्रीभावदाम् जान्ति जनास्तु तत्र हैमाम्बुजैषीदवसन्त वायुभिः काश्मीरवृक्षैश्चलवङ्गजालैः देवद्रुमामोदमदाम् ध षट्पदैरिलावृतं खण्डमदीवरेजे पश्यन्भुवम् स्वर्णमयीम् मनोहराम् वैदुर्यरत्नाङ्कुरवृन्दचित्रिदाम् इलावृतम् पूर्णमलम् कृदै सुरैर्विचित्य खण्डं जगृहे बलिं हरिः श्रीशोभनो नाम पुराकृतेन जामादृको भून्मुचुकुन्दभूभृदः एकादशीं यः समुपोष्य भारते प्राप्तः स किल मन्दराचले अद्याभिराज्यं गुरुदे कुबेरवद्राज्ञसुतोसौ सु किल चन्द्रभागया नित्वा समाययौ मैथिलसुन्दरः परः प्रदक्षिणीकृत्य हरिं यदूत्तमम् पादारविन्दे पतितोऽथशोभनः भक्र्या प्रणम्या शुबलिं महात्मने दत्त्वा ययौ मैथिलमन्दराचलम् बहुलाश्व उवाच शोभने च नृपे यादे मधुसूदनः अग्रे चकार किं देवो वद देवर्षिसत्तम श्रीनारद उवाच सरोवरम् परं दिव्यम् तस्मिन् मन्दरसानुनी सौवर्णपङ्कजम् वीक्ष्य किरीडिप्राहमाधवम् अर्जुन उवाच काञ्चनीभिर्लताभिश्च सौवर्णे पङ्कजैर्वृदम् माम् देवगी पुत्रकस्येदम् कुटुम् मदद्भुतम् कुटुम् अद्भुतम् कुण्डमद्भुतम् श्रीभगवानुवाच प्रधुपूर्वो राजराजस्वायम्भुव कुलोद्भवः तताप स तपो दिव्यम् तस्येदम् कुण्ड मद्दद्भुतम् अस्य पीत्वा जलम् सद्य सर्वपापै प्रमुच्यते स्नात्वा तद्धामपरमम् व्याधिपार्थनरेतरः श्रीनारद उवाच अत्रैव भगवान् साक्षात्तपो भूमिम् जगामः सरूपास्तत्र नृत्यन्ति सर्वास्ता ह्यष्टसिद्धयः ता वीक्ष्य सनातनम् उद्धव उवाच कस्येयं सुतपोभूमिर्मन्तराचलसन्निधौ मूर्तिमत्यो विराजन्ध्यका स्त्रीयो वदहे प्रभो श्रीभगवानुवाच स्वायम्भुवेन मनुना तपश्चात्र कृतम् पुरा तस्येयं सुतपो भूमिरद्याभिश्रेयसी बहु सदात्रैव किव रुदन्दे नारीरूपाष्टसिद्धयः अत्र प्राप्तस्य कस्यापि ततस्ताश्च भवन्ति हि अत्र देवत्वं यादि मानवः तपो भूमेश्चमाहात्म्यम् वक्तुम् नालं चतुर्मुखः श्रीनारद उवाच इत्युक्त्वा भगवान् कृष्णस्वसैन्यपरिवारितः जगामप्रोत्कडान् देशान् दुन्दुभिन्नादयन्मुहुः हिरण्यकश्यपुर्दैत्यो यत्र तेपे तपःपुरा यत्र लीलावती नाम वर्तते काञ्चनीपुरी लीलावतीश्वरसाक्षाद्विधिहोत्रो हुदासनः नित्यं राज्यं प्रकुरु दे सोऽपि श्रीकृष्णचन्द्राय पुरुषाय महात्मने बलिम् दत्त्वा पराम् शस्य स्तुतिम् चक्रे धनञ्जयः इदम् पश्यन् देव देवः सर्वम् वर्षमिलावृदम् जगामवेदनगरम् जम्बुद्वीपम् मनोरमम् मूर्तिमान्यत्र निगमो दृश्यदे सर्वदैव हि सदा वाणी वीणा पुस्तकधारिणी गायन्ती कृष्णचरितम् सुभगम् मङ्गलायनम् उर्वशी पूर्व इत्याद्या नृत्यान्त्यप्सरसो नृप हाव भावकडाक्षैश्च तोषयन्त्यश्रुतीश्वरम् अहम् विश्वावसुश्चैव तुम्बरुश्च सुदर्शनः तथा चित्ररथोके देवादित्राणि मुहुर्मुहुः वेणुवीणामृदङ्गानि मुरुयष्टियुतानि च तालदुन्दुभिः सार्धं वादयन्ति यथाविधि ह्रस्वदीर्घप्लुतो दातानुदातस्वरिदानृभ सानुनासिकभेदश्च तथा दा। निरनुनासिकः एतैरष्टादशैर्भेदैर्गीयन्ते हृदयपरैः मूर्तिमन्दो विराजन्ते तत्र वेदपुरे नृप अष्टौ तालासुरसप्त तथा ग्रामत्रयं नृप वसन्तिवेद्यनगरे मूर्तिमन्दः सदैव हि वैरवोमेकमल्लारोदीपगोमालकंसकः श्रीरागश्चाभि इण्डोलो रागा षट् सम्प्रकीर्तिताः पञ्चभिश्च प्रियाभिश्च तनुजैरष्टभिक्पृथक् मूर्तिमन्तत्तु ते तत्र विचरन्ति नरेश्वर भैरवो बभ्रूवर्णश्च मालकंसुकद्युतिः मयूरद्युतिसंयुक्तो मेकमल्लारये बहि सुवर्णाभोदीपकश्च श्रीराघवरुणवर्णभृद हिण्डोलो दिव्य हंसाभो राजदे मिथिलेश्वर बहुलाश्व उवाच तालानां च स्वराणां च ग्रामाणां च्वरा मुनिसत्तमनृत्यानां कदिभेदा वै श्रीनारद उवाच रूपकश्चरीकश्च ताल परमढप् विराडकमठश्चैव मल्लकश्च छडिज्झुडा निषादर्षभगान्धार षड्ज मध्यमधैवताः पञ्चमश्चेत्यमीराजन् स्वराः सप्तप्रकीर्तिताः माधुर्यमथगान्धरम् द्रव्यम् ग्रामत्रयम् स्मृतम् रासम् चाडवम् रासम् च ताण्डवम् नाट्यम् गान्धर्वम् कैन्नरं तथा वैद्याधरं गौह्यकं च नृत्यमाक्रूरसंहृप आवभावानुभवैश्च दशभेश्चाष्टभेदवद सारो गमपधन्नीदि सारो गमपधनीधिस्वरगम्यं पदं स्मृधम् ये तत्ते कथितं राजन् किं भूय श्रोतुमिच्छसि यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वेदनगरवर्णनं नाम त्रिचत्वारिंशोऽध्यायः बहुलाश्व उवाच रागिणीनां च नामानि वददेवर्षे मम तथा वैरागपुत्राणां त्वं परावरवित्तमः श्रीनारद उवाच कालेन देशभेदेन क्रियया स्वरमिश्रया भेदा बुद्धाय षट्पञ्चाशत्कोट्यो गीतस्य कीर्तिताः अन्तर्भेदा अनन्ता हितेषां विध्येनं रागमानन्दं शब्दब्रह्ममयं हरिं तस्मान् मुख्याश्च भेदा कौ वदिष्यामि तवाग्रदः भैरवी पिङ्गलाशङ्गी लीलावत्यगरी तथा भैरवस्यापि रागस्य रागिण्य पञ्चकीर्तिताः महर्षिश्च समृद्धश्च पिङ्गलो मागधस्तथा बिलवश्च वैशाखो ललित पंचमस्था भैरवसाष्टपुत्रे गीय पृथक प्रधक पृथक चिरा जय जया जय वी विचि कथिता पुनः व्रजल्लाक्ष्यंधका कारी रागिण्यों मनोहरा मेखमल्लाराग रा से कथिता पंचम श्यामकारसोरठश्च नडोटायनयेव च केदारो ब्रज जलधारस्तथैव च विहागश्चेत्यष्टपुत्रा कथिदा पूर्वसूरिभिः कञ्चुकी मञ्जरी डोढी गुर्जरी शबरी तथा दीपकस्यापि रागस्य रागिण्य पञ्चविश्रुताः कल्याणशुभकामश्च गौडकल्याण एव च कामरूपकान्हरेदि रामसञ्जीवनस्तथा सुखनामा मन्दहांसपुत्रा सा साष्टौ विदेहराट रागस्य दीपकस्यापि कथित कान्धारी वेद गान्धारी धनाश्रीस्वर् मणिस्तदा गुणागरीदिरागिण्यपञ्चयिदा मैथिलेश्वर माल्लकोशस्य रागस्य कथित रागमण्डले मारुमाचार कौशिकस्तदा चन्द्रकारो कुङ्कुटश्च विहारो नन्द एव च मालकोशस्य रागस्य चाष्टपुत्रा प्रकीर्तिताः वैराटी चैव कर्णाटी गौरी गौरावटी तथा चतुश्चन्द्रकला चैव राज्ञ्यपञ्चविश्रुताः श्रीरागस्यापि राजेन्द्रकथिता पूर्वसूरिभिः सारङ्गः गौरो मरुपञ्च शरस्तथा गोविन्दश्च अमीरश्च गीर्भीरश्च तथैव च श्रीरागस्यापि राजेन्द्रह्यष्ठौ पुत्रा मनोहराः वसन्दी ऐरजाहेरी तैलङ्गीसुन्दरी तथा हिण्डोलस्यापि रागस्य रागिण्यपञ्चविश्रुताः मङ्गलश्च वसन्तश्च विनोदः कुमुदत्तथा एवं च विहिदो नाम विभासस्वरमण्डलः पुत्राश्चाष्टौ समाख्यादामैथिलेन्द्रविचक्षणैः बहुलाश्व उवाच शब्दब्रह्महरे साक्षान्निगमस्य महात्मनः रागमण्डल इत्येवम् हिण्डोलस्य पृथक् पृथक् अङ्गानि वद महीतले श्री श्रीनारद उवाच मुखं व्याकरणं प्रोक्तं पिङ्गल पाद उच्यदे मीमांसशास्त्रं हस्तौ ज्योतिर्नेत्रं प्रकीर्तितम् आयुर्वेदपृष्ठदेशो धनुर्वेद उरस्थलं गान्धर्वं रसनं विद्धिमनो वैशेषिकं स्मृतं साङ्ख्यं बुद्धिरहङ्कारो न्यायवादप्रकीर्तितः वेदान्तं तस्य चित्तं हि वेदस्याभिमहात्मनः रागरूपमिदम् राजन् विहारम् विद्धि मैथिल यदत्ते कथितम् राजन् किम् भूय श्रोतुमिच्छसि बहुलाश्व उवाच तस्मिन् वेदपुरे रम्य किञ्चार किम् चकार हरिस्वयम् यदन्मेव तदे वर्षे त्वम् श्रीनारद उवाच आयान्तं वेदनकरं श्रीकृष्णं यादवेश्वरं निगमोऽपि बलिं नीत्वा सरस्वत्या तया सह गन्धर्वैराप्सरोभिश्चग्रामतालैश्वरैः सह रागैः सभेदैः सहितप्रणनामकृदाञ्जलिः प्रसन्नो भगवान् साक्षाद्देवदेवो जनार्दनः वेदं प्राह यदूनाञ्च सर्वेषाम् शृण्वदाम् सदाम् श्रीभगवानुवाच निगमत्वम्बरम् ब्रूहीयते मनसि वर्ददे दुर्लभम् किम् त्रिलोकेषु भक्तानाम् हर्षिदे मयि वेद उवाच यदि देवप्रसन्नोऽसि सर्वे येम सुपार्षदाः तेषां देवनिजं रूपं दर्शया त्रपरेश्वर यद्रूपं ते गोलोगे गोलोके स्वधाम्नि प्रस्फुरद्युधौ वृन्दावने च तद्रासे तस्य दर्शनकाङ्क्षिणः श्रीनारद उवाच श्रुत्वा देववच कृष्णपरिपूर्णतमस्वयम् स्वरूपं दर्शयामास राधया सहिदम् परं तद्रूपं सुन्दरं दृष्ट्वा सर्वे वै मूर्च्छनाङ्गदाः पूजिता सात्विकैर्भावैर्विस्मृत्य स्वतनो सुखं तथापि हर्षिता सर्वे वादित्रैर् मधुरस्वनैः जगुस्तत्पुरतो राजन्नान् ऋद्धु पश्यतां यथा श्रुतम् तथा दृष्टम् माधुर्यम् रूपमद्भुतम् तथैव चक्रुर् वेदाद्यावर्णनम् मैथिलेश्चर वेद उवाच स ज्ञानमात्रम् सदः सत्परम् बृहश्च प्रशान्तम् विभवम् समम् त्वाम् ब्रह्म वन्दे वसुदुर्गमम् पराम् सदा स्वधाम्ना परिभूतकैधवम् सरस्वत्युवाच महप्परम् त्वाम् किल विदुः सविग्रहम् तत्र वदन्ति सात्वदाः दृष्टम् दुयत्ते पदयोर्द्वयम् मे क्षेमस्य भूयान्मह सामधीश्वरम् गन्धर्वौचुः श्यामम् च गौरम् विदिदम् स्वधाम्ना निजेच्छयाहि विराजसे नित्यमलम् च ताभ्याम् कनो मे च गानीभ्या अप्सरस ऊजु यमकवल्या चंचलया च कास्ती नीलोद्रिराज निषाश्मकियास्तु तथा रमण्य ग्रामजु यस्य पदस्य परागं शम्भूरमा कविदेवैः इच्छति चेदासिराधातं भज माधवपादवं तलावूजुः येन बलिः सद्विहरे तद्बलिमेव हरेद स्तम्भजपादं तु हरेच्छेदसि तप्ते कुहरे गानाऊजुः उत्क्षिपं दि बहिर्दुःखं सन्तोष्यचरणं गदाः राधामाधवयोर्दिव्यं दधाम पदपङ्कजं स्वरावुचुः शरद्विक च पङ्कजश्रियमदीवविद्वेषकं मिलिन्दमुनिलेढितं कुलिशकच कुलिशकज पुरत्कनकनूपुरं दलितभक्ततापत्रयं चलद्युतिपदद्वयं हृदि दधामि राधापदे इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वेदाधिस्तुतिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ओ